गणानान्त्वा गणपतिग्रे हवामहे प्रियाणान्त्वा प्रियपतिग्रे हवामहे निधीनान्त्वा निधिपतिज्ञ हवामहे वसो ममा गणान्त्वा त्वा त्वा गणानाम् गणानान्त्वा गणपतिम् गणपतिम् त्वा गणानाङ्गणानान्त्वा गणपतिम् त्वा गणपतिम् गणपतिं त्वा गणपतीं हवामहे हवामहे गणपतिं त्वा त्वा गणपतिं हवामहे गणपतिं हवामहे हवामहे गणपतिम् गणपतिं हवामहे प्रियाणाम् प्रियाणाग्रे हवामहे गणपतिम् गणपतिं हवामहे प्रियाणाम् गणपतिमिति गणपतिम् हवामहे प्रियाणाम् प्रियाणाग् हवामहे हवामहे प्रियपतिं प्रियपतिं प्रियाणाग् हवामहे हवामहे प्रियाणाम् प्रियपतिम् प्रियाणाम् प्रियपतिं प्रियपतिम् प्रियाणाम् प्रियाणाम् प्रियपतिं निधीनान्निधीनाम् प्रियपतिम् प्रियाणाम् प्रियाणाम् प्रियपतिं प्रियपतिन् निधीनान् निधीनां प्रियपतिं प्रियपतिं निधीनान्निधिपतिन् निधिपतिं निधीनां प्रियपतिं प्रियपतिं निधीनान्निधिपतिम् प्रियपतिमिति प्रियापतिम् निधीनान्निधिपतिन् निधिपतिन् निधीनान् निधीनान्निधिपतिं हवाम हवामहे हवामहे निधिपतिन् निधीनान्निधिनान्निधिपद्यो हवामहे निधिनामिधि निधीनाम् निधिपदो हवामहे नि नि हवामहे निधिपतिं निधिपदयो हवामहे वसो वसो हवामहे निधिपतिन् निधिपत्यो हवामहे वसो निधिपतिमिति निधिपतिम् हवा महे बसो बसो हवा महे हवा महे बसो मम मम बसो हवा महे हवा महे बसो मम बसो मम मम बसो बसो बसो ममाह महामा मम बसो बसो ममाहं बसो इदि बसो